श्रीहरे नमः अथ अष्टमोऽध्यायः श्रीशुक उवाच खर्गपुरोहितो राजन्यदूनां सुमघातपाघ व्रजं जगामनन्दस्य वासुदेव प्रचोदितः तं दृष्ट्वा परमप्रीतप्रत्युत्याय कृताञ्जलिः आनर्चादोषजतिया प्रणिपातपुरःसरं सोपविष्टं कृतादित्यं गिरासूनृतया मुनिं नन्दयित्वा ब्रविद्ब्रह्मन् पूर्णस्य करवाम किं महत् विचलनं नृणां गृहीणां दीनचेतसां निःश्रेयसाय भगवन् कल्पतेनाङ्ग्यथा क्वचित् ज्योतिषामयनं साक्षात् यत्तद् ज्ञानमतीन्द्रियं प्रीणितं भवता येन पुमान् वेदपरावरं त्वं हि ब्रह्मविदां संस्कारान् कर्तुमर्हसे बालयोरनयोर्नृणां जन्मना ब्राह्मणो गुरुः ग गर्ग उवाच आचार्य तस्य भुवि सर्वतः सुतं मया संस्कृतं ते मन्यते देवकी सुतं कंसपापमतिः सख्यं तव च आनगन्धुन्दुबेः देवज्ञा गर्भो न स्त्रीभवितुमर्हति इति सञ्चिन्तयन् श्रुत्वा देवज्ञाधारिका वचः अपि हन्ता गता सङ्कस्तर्हि तन्तो नयो स्वस्तिवाचनपूर्वकं श्रीशुक एवं संप्राप्तितो विप्र स्वचिकीर्षितमेव तत् सकारनामकरणं गूटो रगसिबालयोः गर्ग उवाच अयं हिरोणिः पुत्रो रमयन् सुहृदो आख्यास्यते राम बालधिक्यात् बलं विदुः यदूनामपृथक् भवात् सङ्कर्षणम् उशन्त्युत आसन् वर्णास्त्रयो ह्यस्य गृह्णतोनुयुगं तनुः इदानीं कृष्णतां गतः पाघयं वासुदेवस्य क्वचित् जातस्तवात्मज वासुदेव अभिज्ञासं प्रशक्षते बहूनि सन्निनामानि रूपाणि च सुतस्यते गुणकर्मानुरूपाणि तान्यहं वेदनो जनाः एष वश्रेय आदास्य गो भगोकुलनन्दनः अनेन सर्वदुर्गाणि यूयम् अञ्जस्तरिष्यत पुरा अनेन व्रजपते साधवोधस्युपीडिदाः अराजके रष्यमाण जिज्ञोर्दस्योन् समेधिताः ये तस्मिन् महाभाग प्रीतिं कुर्वन्ति मानवाः नारयो विभवन्त्येतान् विष्णुपक्षानि वासुराः तस्मान्नन्दात्मजोयं ते नारायणसमो गुणैः श्रियाकीर्त्यानुभावेन गोपायस्य समाहितः इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते नन्तः प्रमुदितो आत्मानं पूर्णमासिशान कालेन व्रजताल्पेन गोकुले राम केशवौ जानुभ्यां सकपाणिभ्यां रिङ्गमाणौ विजह्रतुः तौ अङ्घ्रियुग्मम् अनुहृष्य शरि घोषप्रघोषरुचिरं व्रजकर्दमीषु तन्नादहृष्टमनसाम् अनुसृद्य लोकं मुक्तप्रभीतवत् उपेयतुरन्ति मात्रोः तन्मातरौ निजसुतौ कृणयाश्नुवन्त्यौ पङ्काङ्गरागरुचिरौ उवुबहु गुह्यदौर्भ्यां तद्वास्तनं प्रबिबो स्ममुखं निरीक्ष्य मुग्धस्मिताल्भसनं ययतुः प्रमोदम् यर्ह्यङ्घनादर्शनीयकुमारलीलौ अंत्रजे तधबला प्रगृहित वत्सत उण प्रेक्ष उज्जित गृह जगृशर्स्यृंगि अग्निधमसी जलद्बीज कंटकेभ्य क्रीटापरौति चलो स्वुत निषेधु गृकर् न तज्जनन्यौ सेकात आपतुरलं मनसो नवस्ता कालेनाल्बेन राजर्षे रामकृष्णश्च गोकुले अगृष्टजानुभिर्पद्भिर्विचक्रमधुरञ्जसा ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः सह रामो व्रजस्त्रीणां चिक्रीडे जनयन्मुदं कृष्णस्य गोभ्यो रुचिरं वीक्षकौमारचापलं शृण्वत्या किल तन्मातु इति होसु समागताः वत्सान्मुञ्चन् क्वचितसमये क्रोसञ्जातः सः तेयं स्वाध्वत्य तदधिभय कल्पितैस्तेययोगगै मर्कान् भोक्ष्यन् विभजति सन् चेन्नाति भाण्डं भिनत्ये द्रव्यालाभेसगृहकुपितो यात्युपक्रोश्यतोकान् हस्ताग्राह्ये रचयति विधिं पीठकोलूकलाद्यैः चित्रं ह्यन्तर्निहितवयुनशिक्यभाण्डीषु तद्वेत् ध्वान्ताघारे धृतमणिगणं स्वाङ्गं अर्तप्रदीपं काले गोप्यो यर्हि गृह कृत्येषु सुव्यक्रचित्ताः एवं दार्शट्यान्युसति कुरुते मेहती निवास्तौ स्तेयोपायैर्विरचितकृति सुप्रतीको यथास्ते इत्थं श्रीभिस्सभयनयन श्रीमुखालोकिनीभेर्व्याख्यातार्था प्रकसितमुखे न ह्युबालब्धुमैश्च ये कदा क्रीडमानास्ते रामाद्यागोपधारकाः कृष्णोमृतं भक्षितवानिति मात्रेण्यवेदयन् सा गृहीत्वा करे कृष्णम् उपालभ्य हितैक्षिणे यशोधाभयसम्भ्रान्त कस्मान् कस्मान्मृतमदान्तात्मन् भवान् पक्षितवान् रहः वदन्ती तावकाह्ये ते कुमारास्तेग्रजोऽप्ययम् श्रीकृष्ण उवाच नाहं पक्षितवानम्भ सर्वे मिथ्याभिशंसिनः यदि सत्यगिरस्तर्हे समक्षं पश्य मे मुखम् यद्येवं तर्हि व्याधेहेत् युक्तः स भगवान् हरिः व्याधत्त अव्याहतैस्वर्यं क्रीडामनुजबालकः सा तत्र धतृशे विश्वं जगस्तास्नु च कशः शास्त्रिद्विभाप्तिभूगोलं स्वायवग्नीन्दुतारकं जलं तेजों न भस्वान् वैकारिकानि इन्द्रियाणि मनोमात्रा गुणास्त्रयः एतत् विचित्रं सह जीवकाल स्वभावकर्मा वयलिङ्गभेदम् सूनोस्तनौ वीक्ष्य विधारितास्य व्रजन् सहात्मानमवाप अवापसङ्घा किं स्वप्नयेतधुतदेव मायां किं वामदीयो बत बुद्धिमोहः अतो अमुष्यैव ममार्भगस्य यः कश्चन उत्पत्तित अतो यथावन्तवितर्कगोचरं चेतो मनः कर्म वचोभिरञ्जसा यथाश्रयं सुदुर्विभाव्यं प्रणतास्मि तत्पदम् अहं ममासौ पदिरेक्ष मे सुतो व्रजेश्वरस्याखिल वित्तपासती गोभ्यश्च गोपासह गोतनाश्च मे यन्माययेत्तं इत्थं विदितत्त्वायां गोपिकायां स ईश्वरः वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुवो सद्यो नष्ट स्मृतिर्गोऽपि सारोभ्यो रोहमात्मजं प्रवृद्धस्नेहकलिलहृदयासीत्यथा पुरा त्रय्या च उपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः उपगीयमानमाहात्म्यं हरिंसा अमन्यात्मजम् राजोवाच नन्दक्किमकरोद्ब्रह्मन् श्रेय एवं महोदयं यशोधाच महाभागा पपौ यस्यास्तनम् हरिहे पितरौनान्द्वविन्देतान् कृष्णोधारार्भके हितं गायन्ति अत्यापि कवयो यल्लोकसमलापहम् द्रोणो वसूनां प्रवरो धरया सखभार्यया करिष्यमाण आदेशान् ब्रह्मणस्तमुवाचः जातयोर्नो महादेवे भुवि विश्वेश्वरे हरो भक्ति स्यात् परमालोके ययाज्जो दुर्गतिं तरेत् अश्वित्युक्त स भगवान् व्रजे द्रोणो महायसाखा जज्ञे नन्द इति ख्यातो यशोधासाधरा भवेत् ततो भक्तिर्भवेति पुत्रीभूते जनार्दने दम्पत्योर्नितरामासीत् गोपगोपीषु भारत कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः सहरामो रामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धे विश्वरूपदर्शने अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द